हरि ओम् श्रीसीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे पञ्चपञ्चाशत् सर्गे रावणा कम्पनादीनां युद्धम् आगमनम् वानरैः सह तेषां घोरं युद्धं च वज्रनाष्टम् हतं श्रुत्वा वालिपुत्रेण रावणः बलाध्यक्षम् वाचेदम् कृताञ्जलिमुपस्थितम् शीघ्रं निर्यान्त दुर्ध च राक्षसा भीम विक्रमः अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्र गोविदम् एष चास्त्राश्च गुप्ता च नेता नित्यं च सम्मरप्रिय एष सुग्रीवं च महाबलं वानराञ्चापरान् घोरान् हनिष्यति न संशयै परिगृह्य सतां तां रावणस्य महाबल बलं सम्प्रेरयामास तदा लघु पराक्रमः ततो नानाप्रहरणा भीमाक्षा भीमदर्शनः निष्पेतु रक्षसा मुख्या बलाध्यक्ष प्रचोदितः प्रथमास्थाय विपुलम् तप्त काञ्चन भूषणम् मेघा भूमेघवर्णश्च मेघस्व न महासनः राक्षसै समृतो घोरैः तदा निर्यात्य कम्पनः नहि कम्पयितुं शक्यः सुरैरपि महामूधे कम्पन तदेषाम् आदित्यैव तेजसा तस्य निर्धावमानस्य संरब्धस्य युत्सया अकस्माद् दैन्यमागच्छत् हयानाम् रसवाहिनां व्यस्फुरम् नयनम् चास्य सव्यम् युद्धाभिनन्दिनः विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः अभवत् सुदिने काले दुर्दिनं मारुतम् ऊचु खगमृगा सर्वे वाचक्रूराभयवः भा सिंहोपचितस्कन्ध शार्दूल समविक्रमः तानुत्पातानुचिन्त्यैव निर्जगामरणाजिरं तथा निर्जगच्छितस्य रक्षसे स राक्षसै बभूव सुमहानाद शोभयन्निवसागरम् तेन शब्देन वित्रसा वानराणाम् महाचमुः द्रुमशैल प्रहाराणाम् योद्धुम् समुपतिष्ठतान् तेषां युद्धम् महारौद्रम् सञ्जन्ये कपि रक्षसाम् राम रावणयोरर्थे सामभतन सर्व हतीबलाशूर सर्वे पर्वत सन्न हाक्षसा च पर जिघांस तेजा विनर्दताम शब्द संयुगे तरश शुश्रू वे सुम्हानोनम अभिगर्ज त्रजचारुण वरुणाभ सुम जम् उद्धृतम् हरिरक्षोऽपि संरुरोधे दिशो दिशे अन्योन्यम् रजता तेन कोशे योद्धत पाण्डुना संवृतानि च भूतानि ददृशुर्न रजिरे न चर्म वा तुगोऽपि वा आयुधम् ददृशे तेन रेणुना शब्दश्च सुमहान् तेषाम् नर्दताम् अभिधावताम् श्रूयते तुमलो मलो युद्धे न रूपाणि च काशिरे हरिनैव सुसंवृष्टा हरयो जघ्नुराघवे राक्षसा राक्षसा चापि निजघ्नोतिमिरे तदा ते पराञ्च विनिघ्नन्त स्वाच वा नर राक्षसः रुधिराम् तदा चक्रो महीं पङ्कानुलेपनम् ततस्तु हृधिरोगेण सिक्तम् शरीरे शवसङ्कीर्ण बभूव च वसुन्धरा ध्रुमशक्ति गदाप्रासै शिलापरिघतो मरै राक्षसा हरयस्तूर्णम् जघनुअन्योन्य बाहुभि परिघाकारे युध्यन्त पर्वतोपमान् हरयो भीमकर्माणो राक्षसान् जघ्नु राहवे राक्षसा सभि संक्रुद्ध प्रासतोमरपाणयः कपिन् जघ्निरे तत्र शस्त्रैः परमदारुणैः अकम्पना सुसंक्रुद्धो राक्षसानां च मोपती संहर्षयति तान् सर्वान् राक्षसान् भीम विक्रमान् हरय स्वपि रक्षासि माधूम माश्मभि विदारयन् च भिक्रम्य शस्त्राण्यच्छिद्यव्ययत् एतस्मिन्नन्तरे वीरा हरये कुमदो नरः मन्दश्च द्विविध क्रुद्धाश्चक्रुर्वेगम् मनोत्तमम् महावीरा राक्षसानां च मुमुखे कदनं सोमः चक्रु हरिपुङ्गवः मम राक्षसान् सर्वे नानाप्रहरणैर्भुषम् इत्याश्री श्रीमद् रामायणे वाल्मीकीयाधिकारे युद्धकाण्डे पञ्चपञ्चाशत्सर्गे श्रीसीतारामचन्द्रार्पणमस्तु